अथ सप्त सप्ततितमः सर्गः गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः वरुणाय प्रमेयाय ददो हस्ते महायशाः अभिवाद्यततो रामो वसिष्ठप्रमुखान् ऋषीन् पितरम् विकलम् दृष्ट्वा प्रोवाच रघुनन्दनः जामदज्ञो गतो रामः प्रयातु चतुरङ्गिणी अयोध्याभिमुखी सेना त्वया नाथेन ना पालिता रामस्य वचनम् बाहुभ्याम् सम्परिष्वज्य मूर्ध्युपाघ्राय गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः पुनर्जातम् तदा पताका ध्वजनीम्रम्याम् तूर्योद्भुष्टनिलादिताम् सिक्तराजपथारम्याम् प्रकीर्णकुसुमोत्कराम् राजप्रवेश सुमुखैः पौरैर्मङ्गलपाणिभिः सम्पूर्णाम् प्राविशद्राजा जनौघैः समलङ्कृताम् पौरैः प्रत्युद्गतो दूरम् द्विजैश्च पुरवासिभिः पुत्रैरनुगत प्रविवेशगृहम् राजा हिमवत्सदृशम् प्रियम् ननन्दस्वजनै राजा गृहे कामैः पूजितः कौसल्याच च सुमित्रा च कैकेयी च सुमध्यमा वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ततः सीताम् महाभागा मूर्मिलाम् च मङ्गलापनैर्होमैः शोभिताः क्षौमवाससः देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा रेमि रेमुदिताः सर्वा भर्तृभिर्मुदितारहः कृतदाराः कृतास्त्राश्च कृता सधनाः ससहृज्जनाः शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः स्य चित्त्वथ कालस्य राजा दशरथः सुतम् भरतम् द्रघुनन्दनः अयम् केकय पुत्रो वसति पुत्रका त्वाम् नेतुमागतो वीरो युधा जिन्मातुलस्तवा श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः कै गमनायापि चक्रामशत्रुघ्नसहितस्तदा आपृच्छ्यपितरम् शूरो रामम् चाक्लिष्टकारिणम् मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ युधाजित्प्राप्य भरतम् सशत्रुघ्नम् प्रहर्षितः स्वपुरम् प्रापिषद्वीरः पिता तस्य तुतोषः गते च भरते रामो लक्ष्मणश्च महाबलः पितरम् देव सङ्काशम् पूजयामासतुस्तदा पितुराज्ञाम् पुरस्कृत्य पौरकार्याणि सर्वशः चकार रामः सर्वाणि प्रियाणि च हितानि च मातृभ्यो मातृकार्याणि कृत्वा परमयम् त्रितः गुरूणाम् गुरुकार्याणि गुरु काले कालेऽन्ववैक्षत एवम् दशरथः प्रीतो ब्राह्मणा नैगमास्तथा रामस्य शीलवृत्तेन सर्वे विषयवासिनः तेषामतिशा लोके रामः सत्यपराक्रमः रामश्च सीतया सार्धम् विजहार बहून् ऋतून् मनस्वी तद्गतमनास्तस्या हृदि समर्पितः प्रिया सीता, सीता रामस्य दारा पितृकृता इति गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते तस्याश्च भर्ता द्विगुणम् हृदये परिवर्तते अन्तर्गतमभिव्यक्तमाख्यातिहृदयम् हृदा तस्य भूयो विशेषेण मैथिलीजनकात्मजा देवताभिस्समारूपे समारूपे सीता श्रीरिवरूपिणी तया स राजऋषिसुतोऽभि कामया समे इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे सप्तसप्ततितमः बालकाण्डम् सम्पूर्णम्